श्रीमद्भागवत् महापुराणम् एकादशस्कन्धम् अथैकोनविंशोऽध्यायः भक्तिज्ञान और्यं नियमादि साधनो का वर्णन् श्रीभगवानुवाच यो विद्याश्रुतसम्पन्न आत्मवान्नानुमानिकः मायामातृमिदं ज्ञात्वा ज्ञानं च मयि संयतेत् ज्ञानेन स्वहमेवेष्ट स्वार्थो हेतुश्च सम्मतः स्वर्गश्चैवापवर्गश्च नान्योऽर्थो मदृते प्रियः ज्ञानविज्ञानसंसिद्धा पदं श्रेष्ठं विदुर्मव ज्ञाने प्रियतमोऽतो मे ज्ञानेनाशो विभर्ति माम् तपस्तीर्थं जपोदानं पवित्राणितराणि च नालं कुर्वन्ति तां सिद्धिं या ज्ञानकलया कृता तस्मात् ज्ञानेन सहितं ज्ञात्वा स्वात्मानमुद्धव ज्ञानविज्ञानसम्पन्नो भज मां भक्तिभावितः ज्ञानविज्ञानयज्ञेन मामिष्ट्वात्मानमात्मने सर्वयज्ञपतिं मां वै संसिद्धिं वयोगमन् तयोद्धवाश्रयति यस्त्रिविधो विकारो मायान्तरापतति नाद्यपुवर्गयोर्यत जन्मादयोऽस्य यदि तव तस्य किंशु आद्यन्त्ययोर्यतं सतोऽस्ति तदेव मध्ये उद्धो वाच ज्ञानम् विशुद्धम् विपुलम् यथैतन् वैराग्यविज्ञानियुतं आख्याहि विश्वेश्वरविश्वमृते तद्भक्तियोगम् च महद्विमिज्ञम् तापत्रयेणाभितस्य घोरे सन्तप्यमानस्य भवाध्वनीश पश्यामि नान्यच्छरणम् तमाघ्रे द्वन्द्वात् पद्राद्मृताभिवर्षान् दष्टम् जनम् सम्पतितम् विदेस्मिन् कालाहि समुद्धनैन् समुद्धरैणम् कृपयापुवर्गै वञ्चोऽभिराशिम् च महानुभाव श्रीभगवानुवाच इत्थमेतत्पुरा राजाभिस्मम् धर्मभृताम् वरम् अजातशत्रूप प्रक्ष सर्वेषाम् नो नु शृण्वताम् निवित्ते भारते युद्धे सुहृण्यधनर्विह्वलः श्रुत्वा धर्मान् बहून् पश्चान्मोक्षधर्मान् पृक्षत तानहं तेऽभिधास्यामि देवव्रतमुखाश्रितान् ज्ञानवैराग्यविज्ञानश्रद्धाभक्त्युपगृंहितान् नवैकादश पञ्चत्रिन् भावान् भूतेषु येन वै इक्षेताथैकमप्येषु तज्ज्ञानं मम निश्चितम् एतदेव विज्ञानम् न तथैकेन येन यत् श्रुत्योन्पत्यप्ययान् पश्येद्भावानाम् त्रिगुणात्मनाम् आदावन्ते च मध्ये च सृज्यात् सृज्यम् यदन्वियात् पुनस्तद्पन्प्रतिसङ्क्रामे यस्येत तदेव सत् श्रुतिप्रत्यक्षमैतिह्यम् अनुमानम् चतुष्टयम् प्रमाणोऽस्वनवस्थानात् विकल्पा स विरज्यते कर्मणाम् परिणामित्वान् आविरिञ्चादमङ्गलम् विपश्चिन्नन्सरम् तस्यै दृष्टम् अपि दृष्टवत् भक्तियोग पुरैवोक्त प्रीयमाणा इति न पुनश्च कथयिष्यामि मद्भक्तिकारणम् परम् श्रद्धामितिकथायां मे सस्वन्मन्दनुकीर्तनं परिनिष्ठा च पूजायां सुस्तवनं मम आदरपरिचर्यायां सर्वाङ्गैरभिवन्दनं मद्भक्तपूजाभ्यधिका सर्वभूते सुमन्मतिः मदर्शेष्वङ्गचेष्टा च वचता मद्गुणेरलां मय्यर्पणं च मनस सर्वकामविवर्जनम्